श्री गणेशाय नमः श्रीगौरीशङ्कराभ्यां नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् एकविंशोऽध्यायः कामनानुरोधेन पूजने शिवलिङ्गसङ्ख्याभिधानम् सूत कृषे वचोतसूतमः सम्यगुप्तं तत् पार्थिवाचाविधानकम् कामना भेदमाश्रित्य सङ्ख्याम् ब्रूहि विधानतः शिव पार्थिव लिङ्गानां कृपया दीनवत्सल सूतवाच ऋषय सर्वे पार्थिवाचाविधानकम् यास्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः स कृत्वा पार्थिवम् लिङ्गम् योऽन्यदेवं प्रपूजयेत् वृथा भवति स पूजा दमदानादिकम् वृथा सङ्ख्या पार्थिवलिङ्गानाम् यथा कामम् निगद्यते सङ्ख्या निश्चयेन फलप्रदा प्रथमावाहनम् तत्र प्रतिष्ठा पूजनम् पृथक् लिङ्गाकारम् समं तत्र सर्वं ज्ञेयं पृथक् पृथक् विद्यार्थी पुरुष प्रीत्या सहस्रमितपार्थिवम् पूजये शिवलिङ्गम् हि निश्चया तत्फलप्रदम् नरपार्थिव लिङ्गाराम् धनार्थी च तदर्थकम् पुत्रार्थी तादृशसहस्रम् वस्त्रार्थी च पञ्चकम् मोक्षार्थिकोटिगुणितम् भूकाम च सहस्रकम् दयार्थी च त्रिसहस्रं तीर्थार्थी द्विसहस्रकं सुरत्कामे त्रिसहस्रं वश्यार्थि शतमष्टकम् मरण मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् उच्चाटनपरश्चैव सहस्रम् च अयथोक्थ स्तम्भनार्थी सहस्रम् तु द्वेषणार्थी तदर्थकम् निगडान्मुक्तिकामस्तु सहस्रम् सार्धमुत्तमम् महाराजभये पञ्च शतम् ज्ञेयम् विचक्षणे चौरादिसङ्कटे ज्ञेयम् पार्थिवानाम् शतद्वयम् दाकिन्यादिभये पञ्च शतमुक्तं च पार्थिवम् दारिद्र्ये पञ्चसहस्रम् अयुतं सर्वकामदम् अथ नित्य विधिं वक्षे शृणोध्वं मुनिसत्तमः एकपापहरं प्रोक्तं द्विलिङ्गं चासुद्धिरम् त्रिलिङ्गं सर्वकामानं कारणं परमीरितम् उत्तरोत्तरमेवम् स्यात् पूर्णो पूर्वोक्तो गुणनावधि मतान्तरमथो वक्षे सङ्ख्यायाम् निभेदतः लिङ्गानामयुतम् कृत्वा पार्थिवानाम् निर्भयो हि भवे नूनम् महाराज भयम् हरेत् कारागृहादिमुक्त्यर्थम् अयुतम् कारयेद्बुध दाकिन्यादिभये सप्त सहस्रं कारयेत् तथा सहस्राणि पञ्चपञ्चाशत् अपुत्र तत्र कारयेत् लिङ्गानाम युतेनैव कन्यका सन्ततिं लभेत् लिङ्गानां युतेनैव विष्वाद्यैश्वैश्वर्यमाप्नुयात् कोटिमेकाम् तु लिङ्गानाम् यः करोति नरो भुवि शिव एव भवेत्सोऽपि ना्या विचारण अष्टा पार्थिवलिङ्गानाम् कोटियज्ञ फलप्रदा भुक्तिरा मुक्तिरा नित्यम् तस्य कामार्थिनाम् नृणाम् विना लिङ्गार्चनम् यस्य कालो गच्छति नित्यसे भवेत्तस्य दुर्वृत्तस्य दुरात्मनः एकतः सर्वदानि च तीर्थानि नियमा यज्ञार्चा लिङ्गार्चा चैकतस्मृतः कलौ लिङ्गार्चनं श्रेष्ठं यथा लोके प्रदुष्यते तथान्यस्ति छात्राणाम् एष सिद्धान्त निश्चयः भुक्तिमुक्तिपदं लिंगं विधापन्निवारणम् पूजयित्वा नरो नित्यम् शिवसायुज्यमाप्नुयात् शिवानामम्बियम् लिङ्गम् नित्यं पूज्यम् शिवि यतश्च सर्वलिङ्गेषु तस्मात् पूज्यं विधानतः उत्तमम् मध्यमम् नीचम् त्रिविधम् लिङ्ग मेरितम् मानतो मुनिषादूल तच्छृणुध्वं वदाम्यहं। चतुरङ्गुलमुचायम् रम्य वेदिकया युतम् उत्तमम् लिङ्गमाख्यातम् मुनिभिः शास्त्र कोविदै तदर्धम् मध्यमम् प्रोक्तम् तदर्धम् अधमम् स्मृतम् इत्थं त्रिवेधमाख्यातम् उत्तरोत्तरतः परम् अनैकलिङ्गं यो नित्यम् भक्ति मनसा मानसेप्सितान् न लिङ्गाधारणात् न लिङ्गाराधना अन्यत् पुण्यम् वेद चतुष्टये विनिश्चय सर्वमेतत् परित्यज्य कर्मजालम् अशेषतः भक्त्या परमया विद्वान् लिङ्गमेकम् प्रपूजयेत् लिङ्गेर्चितेर्चितम् सर्वम् जगत्थावरजङ्गमम् संसाराम् बुधि मग्नानाम् नान्यतारणसाधनम् अज्ञानातिमिरान्धानाम् विषया शक्तचेतसाम् प्रभो नान्योऽस्ति जगति लिङ्गाराधनमन्तरा हरिब्रह्मादयो देवा मनयो यक्षराक्षसा गन्धर्वाचारणा सिद्धा दैत्य दानवासथा नागाशेषप्रभृतयो गरुडाद्या कगासथा सप्रजा पतय चान्ये मनवे किन्नरा नरः पूजयित्वा महाभक्त्या लिङ्गम् सर्वार्थ सिन्धिरम् प्राप्ता कामानभीष्टा च सान् तान् सर्वान् हृदि स्थितान् ब्राह्मणे क्षत्रियो वैश्य शुद्रो वा प्रतिलो मजः सादरम् किम् बहुक्ते न अधिकारोऽपि सर्वेषाम् शिवलिङ्गार्चने द्विजः दुझा, द्विजानाम् वैदिकेनापि मार्गेणाराधनम् वरम् अन्येषामपि जन्तूनाम् वैदिकेन न सम्मतम् वैदिकानाम् द्विजानाम् च पूजा वैदिकमार्गतः कर्तव्या नार्ग नान्यमार्गेण इत्याह भगवान् शिवः दधि चे गोत्तमादीनाम् शापेना दग्ध चेतसाम् विजानाम् जायते श्रद्धा नैव वैदिककर्मणि या वैदिकमनाधृत्य कर्मस्मात् तथापि वा अन्यतमाचरेन् मत्यो न सङ्कल्प फलम् लभेत् इत्थम् कृत्वा चनम् शम्भु नैवेद्यान्तम् विधानतः पूजयेत् अष्टमूर्ति च तत्रैव त्रिजगन्मयी क्षितिरा पूर्णरो वायु आकाश सूर्यसोमकौ यजमान इति त्रौ मूर्तये परिकीर्तिताः सर्वो भव रुद्रश्च उग्रो भीम इतिश्वर महादेव पशुपति एतान् मूर्ति विरचयेत् पूजयेत् परिवारम् च तथश्यम्भु सुभक्तितः ईशानादिक्रमात् तत्र चन्दनाक्षतपत्रकै ईशानम् नन्दिनम् चण्डम् महाकालं च भृङ्गिणम् वृजम् स्कन्दम् कपर्दीशम् सोमम् शुक्रम् च तत्क्रमात् अग्रतो वीरभद्रम् च पृष्ठे कीर्तिमुखम् तथा तत एकादशान् रुद्रान् पूजयेत् विधिना ततः ततः पञ्चाक्षरम् जत्वा शत्रुद्रीयमेव च तुतीर्णानाविधा कृत्वा पञ्चाङ्गपठनम् तथा ततः प्रदक्षिणाम् कृत्वा नत्वा लिङ्गम् विसर्जये। इति प्रोक्तम् विशेषम् चेत् शिवपूजनमादरात् रात्रौदङ्मुखम् कुर्यात् देवकार्यं सदैव हि शिवार्चनम् सदाप्येवम् शुची कुर्यादुदङ्मुख न प्राचीमग्रतः शम्भो नोदीचिम् शक्तिसंहिताम् न प्रतीचम् यतः पृष्ठम् अतो ग्राह्यम् समाश्रयेत् विना भस्मत्रिपुण्ड्रेण विना पूजये शङ्करम् बुधे भस्मात् प्राप्तु मुनि श्रेष्ठा प्रवृत्ते शिव पूजने तस्मान् वृदापि कर्तव्यम् ललाटे च त्रिपुण्डकम् इति श्री शिवमापुराणे प्रथमायाम् विद्येश्वरसहितायाम् साध्य साधनखण्डे पार्थिवपूजनावर्णनम् नाम एकविंशति विंशोऽध्याय श्रीगौरी शङ्करार्पणमस्तु